अन्नपूर्णोपनिषत् प्रथमोऽध्यायः सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलं त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॐ भद्रं कर्णेभिः देवाः भद्रं पश्ये माक्षभिर्यचत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनोभिः व्यसेमदेवहृदयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्ख्यो अरिष्ठनेमिः स्वस्तिनो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः हरिः ॐ निदाखो नाम योगीन्द्र ऋभुं ब्रह्मविदाम्बरं प्रणम्य दण्डवद्भूमा बुद्धाय स पुनर्मुनिः आत्मतत्त्वमनुब्रूहीत्येवम् पप्रसादरम् पयोपासनया ब्रह्मणीदृश्यम् प्राप्तवानसि तां मे ब्रूहि महाविद्याम् मोक्षसाम्राज्यदायिनीम् निदाखत्वम् कृतार्थोऽसि शृणु विद्यां सनातनीं यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि मूलशृङ्गाडमध्यस्ता बिन्दुनादकलाश्रया नित्यानन्दा निराधारा विख्यादा विलसत्कचा विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तधा भगवत्यन्नपूर्णेदि ममाभिलषितं ततः अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता सप्तविंशतिवर्णात्मा योगिनी गणसेविता ऐं ह्रीं सौं श्रीं क्लीमो नमो भगवत्यन्नपूर्णे ममाभिलषिदमन्नम् देहि स्वाहा यदि पित्रोपदृष्टोऽस्मि तदादिनियमस्थितः कृतवान् स्वाश्रमाचारो मन्त्रानुष्टानमन्वहम् एवं गदे बहुदिने प्रादुरासीन्ममाग्रदः अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्रालिरास्थितः अहो वत्सकृतार्थोऽसि वरं वरयमाचिरम् एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्कव आत्मतत्त्वं मनसि मे मदिरुत्पन्ना जगद्वै भ्रमः भादि तदेवेः समुच्यते जीवेश्वरौ भिन्नरूपा विदिप्राधमिको भ्रमः आत्मनिष्टं कर्तृगुणं वास्तवं वा द्वितीयकः शरीरत्रयसंयुक्तजीवसङ्गी तृतीयकः जगत्कारणरूपस्य विकारित्वम् चदुद्धकः कारणाद्भिन्नजगदसत्यत्वम् पञ्चमो भ्रमः पञ्चभ्रमनिवृत्तिश्च तदा स्फुरदि चेदसि बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः स्फटिकलोकितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः कटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत् त्यत्वभ्रमो निवृत्तः कनकरुजकदर्शनेन विकारित्वभ्रमो निवृत्तकः तदा प्रभृतिमच्चित्तं ब्रह्माकारमभूत् स्वयं निदाखत्वमपि हि तत्त्वज्ञानमवाप्नुहि निदाघः प्रणदो भूत्वा ऋभुम् पप्रसादरम् ब्रूहि मे श्रद्धधानाय ब्रमविद्यामनुत्तमाम् तथेत्याह ऋभुः वदामिते महाकर्ता महाभोक्दा महात्यागी भवानख स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव नित्योदिदं विमलमाध्यमनन्तरूपं ब्रह्मास्मिनेतरकलाकलनं हि इत्येव भावय निरञ्चनतामुपेतो निर्वाणमे हि सकलामलशान्तवृत्तिः यदिदम् दृश्यते किञ्चित् तत्तन्नास्तीति भावय यथा गन्धर्वनगरम् यथा वारिमरुस्थले यत्तु नो दृश्यते किञ्चिद्यन्नु मनःषष्टेन्द्रियातीतम् तन्मयो भव वै मुने अविनाशिचिदाकाशम् सर्वात्मकमखण्डितम् नीरन्ध्रम् तदस्मीदि विभावय यदा संक्षीयते चित्तमभावात्यन्तभावनात् चित्सामान्यस्वरूपस्य सत्ता सामान्यता तदा नूनं चैत्यां शरहिता चिद्यदात्मनि असद्रूपवदत्यच्छा सत्ता सामान्यता तदा दृष्टिरेषा हि परमा सदेहा देहयोः समा मुक्तयोः संभवत्येव तुल्यातीतपदाभिदा व्युद्धितस्य भवत्येषा समाधिस्तस्य चानख ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा अनानन्द समानन्दमुग्धमुग्धमुखद्युधिः चिरकालपरिक्षीणमननादिपरिभ्रमः पदमासाद्यदे पुण्यम् प्रज्ञयैवैकया तथा इमम् गुणसमाहारमनात्मत्वेन पश्यतः अन्तः शीतलया यासौ समाधिरिति कथ्यते अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च तदेव केवलीभानं शान्ततैव च तत्सदा तनुवासनमत्युच्चैः पदायोद्यतमुच्यते अवासगमनोकर्तृपदं तस्मादवाप्यदे कनवासनमेदत्तु चेदकर्तृत्वभावनं सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेद चेदसा सम्परित्यज्य सर्वभावात्मभावनां सर्वमाकाशदा मेदि नित्यमन्तर्मुखस्ति देहे यथा विपणगालोका विहरन्तोऽप्यसत्समाः असम्बन्धात् तथा ज्ञस्य ग्रामोऽपि विपिनोपमः अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन् पुरं जनपदं ग्राममरण्यमिव पश्यति अन्तशीतलतायाम् तु लब्धायां शीतलम् जगद अन्तस्तृष्णोपतप्तानाम् दावदाहमयम् जगद भवत्यखिलजन्तूनां यदन्तस्तद्बहिष्ठितम् यस्त्वात्मरतिरेवान्धकुर्वन् कर्मेन्द्रियैक्रियाः नवशोकर्षशोकाभ्यां स समाहित उच्यते आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवद स्वभावादेव न भयाद्यः पश्यति स पश्यति अद्यैव मृदिरायादु कल्पान्तनिचयेन वा, वा, वा मृदिराया नासौ कलङ्कमाप्नोति हेमपङ्गगतं यथा कोऽहं कथमिदं किं वा कथं मरणजन्मनि विचारयान्तरे वेद्धं महत्तद्फलमेष्यसि विचारेण परिज्ञातस्वभावस्य सदस्तव मनस्वरूपमुत्सृज्य चमेष्यदि विज्वरं विज्वरत्वं गतं चेदस्तव संसारवृत्तिषु न निमज्जति तद्ब्रह्मन् गोष्पदेष्विववारणः कृपणं तु मनो ब्रह्मन् गोष्पदेऽपि निमज्जति कार्ये गोष्पततोऽपि विशीर्णो मशको यथा यावद् यावन्मुनिश्रेष्ठस्वयम् सन्दज्यतेखिलम् तावत्तावत्परालोकः परमात्मैव शिष्यते यावत्सर्वम् न सन्ध्यक्तम् तावदात्मान लभ्यते सर्ववस्तु परित्यागे शेष आत्मेऽधिकथ्यते आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् सर्वं सन्त्यज्य दूरेण यच्छिष्ठं सर्वं किञ्चिदिदं दृश्यं दृश्यते यज्जगद्गदम् चिह्नेष्पन्तां शमात्रम् तन्नान्यत्किञ्चन शाश्वतम् समाहिता नित्यतृप्ता यथा भूतार्थदर्शिनी ब्रह्मन् समाधिशब्देन परा प्रश्नोच्यते बुधैः अक्षुब्धा निरहङ्काराद्वन्द्वेष्वननुपातिनि प्रोक्ता समाधिशब्देन मेरोस्थिरतरा स्थितिः निश्चिता विकदाभीष्टा हेयोपादेयवर्जिता ब्रह्मन् समाधिशब्देन परिपूर्णा मनोगदिः केवलं चित्प्रकाशांश कल्पिता स्थिरतां गदा प्राप्यदे सा प्राप्यदे दृष्टिर्महद्भ्यैर्वेदवित्तमैः अदूरगदसादृश्या सुषुप्तस्योपलक्ष्यदे मनोहङ्कारविलये सार्वभावान्तरस्थिता समुदेदि परानन्दा या तनुः मनसैव मनश्चित्वा सा स्वयं लभ्यदे गतिः तदनु विषयवासनाविनाशस्तदनु शुभः परमस्फुटप्रकाशः तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम् अखिलमिदमनन्दमनन्दमात्मतत्त्वम् दृढपरिणामिनि चेतसि स्थितोऽन्तः बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः अशक्तं निर्मलं चित्तं युक्तं संसार्य विस्फुटं सक्तं दुधीर्कतपसा मुक्तमप्यदिबद्धवद अन्तः संसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् बहिः कुर्वन्न कुर्वन् कर्ता भोक्ता न हि क्वचिद यिदि प्रथमोऽध्यायः